वासं भजेऽहं निराकारोङ्कारमूलं तुरीयं गिर्यानगोतमीशं गिरीशं करालं महाकालकालं कृपालं संसार पारं संसारपारं नतोऽहं तुषाराद्रिसङ्काशगो श्रीशरीरं सुप्रनमोलिकल्लोलिनि चारुगङ्गा लसत् बालबालन्दुकण्ठे भुजङ्गा चलत्कुण्डलं विशालं प्रसन्नाननं दयालं मृगादीशचरमा बहु प्रचण्डं प्रकृष्टं प्रगल्भं परेशम् अखण्डम् अजम्बानुकोटिप्रकाशं त्रिणा शूलनिर्मूलनं शूलपाणिं भजेहं भवानीपतिभावगम्यं कलातीतकल्याणकल्पान्तकारी सदा सज्जनानन्ददाता पुरारी, पुरी चिदानन्दसन्दो मोहापहारि प्रसीद प्रसीद प्रभुमन्मथारि न यावत् उमानात् पादारबिन्दं भजन्ति हि लोके परे वा नराणां न तावत् सुखं प्रसीद प्रभु, प्रभु सर्वभूता न जानामि योगं जपं नेव पूजं नतोऽहं सदा सर्वदा देव तुभ्यम् जराजन्म दुःखोदतात्पीयमानं प्रभु पाहि शापाद् नमामीशम्भ रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतुष्टये पठन्तु नरा भक्त्या तेषां शुम्भ प्रसीधते